एवम् रूपेति सा शक्त्या न निर्देष्टुम् न राधिपा क्षणे न हि बिभर्त्यन्यदनिर्देश्यम् वा पुस्तथा न चापि भारत न च रूपम् कदाचन सुसुखा सा सदा राजन्न शीता न च घर्मदा नक्षुत्पिपासेन ग्लानिम् प्राप्यतां प्राप्नुवन्त्युता नानारूपैरिव कृता मणिभिः सा सुभास्वरैः स्तम्भैर्न च साक्षरा दिव्यैर्नानाविधैर्भावैर्भासद्भिरमित प्रभैः अतिचन्द्रम् तस्याम् स भगवानास्ते विदधद् स्वयमेको निशम् राजन् सर्वलोक पितामहः उपतिष्ठन्ति चाप्येनम् प्रजानाम् पतयः प्रभुम् दक्षप्रचेताः पुलः मरीचिः कश्यपः प्रभुः भृगुरत्रिर्वसिष्ठश्च गौतमोऽथ तथाङ्गिराः पुलस्त्यश्च क्रतुश्चैव प्रह्लादः अथर्वाङ्गिरसश्चैव बालखिल्या मरीचिपाः मनोऽन्तरिक्षम् विद्याश्च वायुस्तेजो जलम् मही शब्दस्पर्शौ तथा रूपम् रसो गन्धश्च प्रकृतिश्च विकारश्च यच्चान्यत्कारणम् भुवः